अथ षट्पञ्चाशम् दशकम् रुचिरकम्पितकुण्डलमण्डलः सुचिरमीशननर्तिथपन्नगे अमरताडितदुन्दुभि सुन्दरम् वियति गायति दैवतयौवते नमति यद्यदमुष्यशिरोहरे परिविहाय तदुन्नतमुन्नतम् परिमथन् पदपङ्करुहाचिरम् व्यहरथाः करतालमनोहरं त्वदव भग्न विभुग्न फणागणे गणितशोणित शोणित पाथसि फणिपताववसीदति सन्नतास्तदबलास्तव माधव अयिपुरैव चिराय परिश्रुत मुनिभिरप्यनवाप्यपथैस्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् फणिवधूगणभक्तिविलोकन प्रविकसत् करुणाकुलचेतसा फणिपतिर्भवत अच्युत जीवितस्त्वयि समर्पितमूर्तिरवानमत् रमणकम् रजवारिधि फणिरिपुर्न करोति विरोधितम् इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् फणिवधूजन दत्तमणिव्रज्ज्वलित हारदुकूलविभूषितः तटगतैः प्रमदाश्रुभिमिश्रितैः समगथा स्वजनैर्दिवसावधौ निशि पुनस् तमसा व्रज मन्दिरम् व्रजितुमक्षमये वजनोत्करे स्वपतितत्र भवच्चरणाश्रये दवकृशानुररुन्धसमन्ततः प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकन् अवितुमाशु पपाथ महानलम् किमिह चित्रमयं खलुते ते मुखम् शिखिनिवर्णतये वहि पीतता परिलसत्य क्रिययाप्यसौ इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितैः सह मे इति षट्पञ्चाशम् दशकम्